अथ चतुर्विंशोऽध्यायः वैशंपायनवाचा भीमसेनस्ततः कृष्णमुवाच यदुनन्दनम् बुद्धिमस्थाय विपुलां जरासन्धवधेप्सया नायं पापो मया कृष्णा युक्तस्यादनुरोधितं प्राणेन यदुशार्दूला बद्धकक्षेण वाससा कृष्णः प्रत्युवाच त्वरयन्पुरुषव्याघ्रो जरासन्धवधेप्सया यत्ते दैवं परं सत्वं यत्सते मातरिष्वनः बलम् भीमजरासन्धे दर्शयाशु तदद्यनः तवैषवध्यो दुर्बुद्धिः जरासंधो महारथः इत्यन्तरिक्षे त्वश्रौषं यदा वायुरपोह्यते गोमन्ते पर्वतश्रेष्ठे येनैष परिमोक्षितः बलदेवबलं प्राप्य कोऽन्यो जीवेतमागधात् तदस्य मृत्युर्विहितः त्वदृतेन बला वायं चिन्त्यमहाबाहो जहिमम् अगधाधिपम् एव मुक्तस्तदा भीमो जरासन्धमरिन्दमः उत्क्षिप्य भ्रामयामासा बलवन्तं महाबलः ततस्तु भीमसेनं समालोक्य नलं जग्राहपाणिना द्विधा चिच्छेद वै तत्तो जरासन्धवधम्प्रति भ्रामयित्वा शतगुणं जानुभ्याम्भरतर्षभा बभञ्जपृष्ठं संक्षिप्यान् निष्पिष्य विननाद करे गृहीत्वा चरणं द्वेधा चक्रे महाबलः पुनः सन्धायतु तदा जरासन्धः प्रतापवान् भीमेन च समागम्य बाहुयुद्धं चकारः तयो समभवद्युद्धं तु मुलं रोमहर्षणम् सर्वलोकक्षयकरं सर्वभूतभयावहं पुनः कृष्णस्तमिरिनं द्विधाविच्छिद्यमाधवः विच्छिद्य माधवः व्यत्यस्य प्राक्षिपत्तत्तो जरासन्धवधेप्सया भीमसेन ज्ञा निर्बिभेदचमागधम द्विध व्यक्त पाद न प्राक्षिप्चनाद शुष्कम सास्थिमेदस्विन्नमस्तिकंडक शवभूतस्दाराजन्पीतवाब तर निषिष्य पांडव से चर्जता अभवत्लोनादाणिभयक वित्रे सुर्मागधाः सर्वे स्त्रीणां गर्भाश्च शुश्रुः भीमसेनस्य नदेन जरासन्धस्य चैवः किं नु मही इति वै मागधा ज्ञमसेनस्य